अथ सप्तमोऽध्यायः श्रीभगवानुवाच मयि सत्तमनाः पार्थ योगम् युञ्जन्मदाश्रयः असंशयम् समग्रम् माम् यथा ज्ञास्यसि तच्छृणु ज्ञानन्तेऽहं स इदम् वक्ष्याम्यशेषतः यज्ज्ञात्वानेहभून्यत् ज्ञातव्यमवशिष्यते मनुष्याणाम् सहस्रेषु कश्चिद्यतति सिद्धये यततामपि सिद्धानाम् कश्चिन्माम् भूमिरापो न लो वायुः खं मनो बुद्धिरेव च अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा अपरेयमितस्वन्या प्रकृतिं विद्धि परा जीवभूता महाबाहो ययेदम् धार्यते जगत् एतद्योनी भूतानि सर्वाणीत्युपधारय अहङ्कृत्स्नस्य जगतः प्रभव प्रलयस्तथा मत्तः परतरम् नम्यत् किञ्चिदस्ति धनञ्जय मयि सर्वमिदम् प्रोतम् सूत्रे मणिगणा इव प्रसोऽहमप्सु कौन्तेय प्रभास्मि शशि सूर्ययोः प्रणवः सर्ववेदेषु शब्दख्ये पौरुषम् ऋषु पुण्यो गन्धः पृथिव्याम् तेजश्चास्मि विभावसौ जीवनम् सर्वभूतेषु तपश्चास्मि तपस्विषु बीजम् माम् सर्वभूताना विद्धिः पार्थसनातनम् बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् बलम् बलवताम् चाहम् कामरागविवर्जितम् धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ये चैव सात्त्विकाभावाः राजसास्तामसाश्च ये मत्त एवेति तान् विद्धि नत्वहं त्वहं तेषु ते मयि त्रिभिर्गुणमयैर्भावैः एभिः जगत मोहितं नाभिजानाति मामेभ्यः परमव्ययम् दैवेह्येषा गुणमयी मम मायादुरत्यय मामेव ये प्रपद्यन्ते मायामे ते न दुष्कृतिनो मूढाः प्रपद्यन्ते न राधमाः माययापहृतज्ञानाः आसुरम् भावमाश्रिताः चतुर्विधा भजन्ते माम् जना सुकृतिनोर्जुन आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभा तेषाम् ज्ञानी नित्ययुक्तः एकभक्तिर्विशिष्यते प्रियो हि ज्ञानिनोत्यर्थम् अहं स च मम प्रियः उदारा सर्व एवैते ज्ञानीत्वात्मैव मे मतम् आस्तितः स हि उक्तात्मा मामेवनुत्तमाम् गतिम् बहूनाम् जन्मनाम् अन्ते ज्ञानवान् माम् प्रपद्यते वासुदेवः सर्वमिति समात्मासु दुर्लभः कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः तं तं नियममास्थाय प्रकृत्या नियतास्वय यो यो यां तस्य तस्या, तस्या चलाम् श्रद्धा तामेव विदधाम्यहम् सतया तया श्रद्धया युक्तः तस्याराधनमीहते लभते च ततः कामा मयैव विहिताम् हिता अन्तवत्तु फलम् तेषाम् तद्भवत्यल्पमेधसा देवान् यान्ति मद्भक्ता यान्ति अव्यक्तं व्यक्तिमापन्नं। व्यक्तिमापन्नम् मन्यन्ते माम बुद्धयः परम् भावमजानन्तः ममा व्ययमनुत्तमम् नाहं प्रकाशसर्वस्य योगमायासमावृतः मूढोऽयम् नाभिजानाति लोको मामजमौव्ययम् वेदाहम् समतीतानि वर्तमानानि चार्जुन भविष्याणि च भूतानि वेदन मां तो वेद न कचन इच्छा देश सुत्थन द्वंदमोहन भारत सर्वूता सर्गेय पर जु्यकर्मण ते द्वन्द्वमोहनिर्मुक्ताः भजन्ते माम् दृढौ रताः जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ते ब्रह्म तद्विदुक्रस्तम् अध्यात्मम् कर्म चाखिलम् साधिभूताधिदैवम् साधियज्ञम् च ये विदुः प्रयाणकालेऽपि ते विदुर्युक्तचेतसः ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः